अथ सप्तषष्टम् दशकम् स्फुरत्परानन्दरसात्मकेन त्वया समासादित भोगलीलाः असीममानन्दभरम् प्रपन्ना महान्तमा पुर्मदमम् बुजाक्ष्यः निलीयतेऽसौ मयि मय्यमायम् इति स्म सर्वाः कलिताभिमाना निरिक्ष्य गोविन्द तिरोहितो भूः राधाभिधाम् तावदजातगर्वामतिप्रियाम् गोपवधूम् मुरारे भवानुपादाय गतो विदूरम् तया सह स्वैरविहारकारी तिरोहितेऽ त्वयि जाततापाः समम् समेताः कमलायताक्ष्यः वने वने वनें परी मगयंत्यो विषादुर्भगवन्नपार हाचूत हाचंकर्णिकार हा मल्लिके मलती बावल्य कि नो हृदय कचोर इदितावण विलेपु निरीक्षिय सखि पंकम में लपंती त्वाम् भावना चक्षुषि वीक्ष्य काचित् पापम् सखीनाम् द्विगुणी चकार त्वदात्मिकास्तायमुना तटान्ते तवानुचक्रुः किल चेष्टितानि विचित्य भूयोऽपि तथैव माना ददृशुश्च राधाम् ततः समम् ता विपिने समन्तात्तमोऽवतारावधि पुनर्विमिश्रा यमुना तटान्ते भृशम् विलेपुश्च जगुर्गुणांस्ते तथा व्यथा सङ्कुलमानसानाम् व्रजाङ्गनानाम् करुणैकसिन्धो जगत्त्रयी मोहनमोहनात्मा त्वम् प्रादुरासीरयि मन्दहासी सन्दिग्धसन्दर्शनमात्मकान्तम् त्वाम् वीक्ष्य तन्व्यः सहसा तदानीम् किम् किम् न चक्रुः इति सप्तषष्टम् दशकम्